ओम् ध्यायामोदबलाभकुण्टनवतीम् तेजोमयी मैष्टिकीम् ङ्गविलोहिनीं भगवतीं अन्धस्मितश्रीमुखीं वात्सल्यामृतवर्षिणीं सुमधुरं सङ्गीर्तनालापिनीं श्यामाङ्गीं मधुसिद्धसूक्तिम् अमृतानन्तात्मिकाम् ईश्वरीं हवामहे कविम् कवीनामुपमश्रवसमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पतनशृण्मन् मूथिभिः सीददातनम् ॐ श्री महागणपत हे नमः रुद्राया टिल् Asman Nide Hitam Anybody who feels not confident, not uh, have some doubts So uh, instead of everybody chanting, I think we can go that way so. Anybody who has uh, doubts, questions, confusions is uh, we can start uh, we can chant all chant together in then till uh, ha huh. you also did uh, till uh, the second thing right sambhave namaha namaste astu bhagavan vishveshwara mahadeva right uh we did one after that also uh, yeah but at uh, least that i think uh, some people were not here so till that till that we can do it together and then we can start with the second thing oh okay Right. okay okay so let's just start together and uh, i might might so not say everything because then i can hear some of the yells chanting and some me chanting okay so um, i'll start off and then i'll probably keep quiet and then everybody else can chant and then accordingly we'll Do you want us all to unmute yeah okay so we we'll start okay. all together then uh, i will not say much okay 1 2 3 ॐ नमो भगवते रुद्राय राया नमस्तेष मे नमः भवन्त्यामि नमः शिव नमः शिव भवति सयुः shiva astaramaya yataya namitra mudaya e rudra shirish shiva sanurna bhapa papakali kaya nanasthanakundamaya kirishanandabichaya hey i think that there will be some delay in this thing so none of you will be synchronized so uh, let's do this thing Uh, let's say tayanasthanuva uh, santamaya from there let's say each person will say two sentences and somebody else will say two sentences after that that <coughs> way everybody gets a chance and we uh, we, we can uh, only uh, yeah cycle, that's yeah, cycle that thing so uh, uh, let's do this thing let uh, uh, mahesh go the first two sentences starting with tayanasthanuva then, yeah. then ganga then uh, sujada then sarala okay and uh, um, who else is there Okay Sushila Sushila am I there Yeah you want to chant to Sure Okay so then let's do that order and uh, uh, I don't see Gayatri anymore so she is gone So let's do uh, Tayanastanuva til Mahigumsi uh, uh, purusham jagat that is Mahesh uh, dan shivena vachsatva and uh, uh sumana sat that is ganga and then sujata satya vacha devakta atil asavyastamaro arnavadaprismangala and then after that is arla echema gamudra and then next sentence is asoyas vasarpati til vilohitaha that is arla and suchila uh you can say utenam gopadarshan okay and til namo ast nilagriva sahastha akshaya mithuse rest that okay तया तनुवाशन्तमया गिरिशन्ताभि चाकशः यामिशुम् गिरिशन्त हस्ते बिभर्ष्यस्तवे शिवाम् गिरित्रताम् कुरु माहि once once again there uh, nayi nayi um, you um, you'll get a chance uh, oh sorry i just joined so i didn't yeah, no, i know but what happened is like you know everybody says i can't hear everybody because there's a delay as well yes yes so yeah i got dropped i just joined so again i didn't know what happened in the middle so everybody is uh, not in sync because of the delay right not okay. in sync so instead okay. i just said you now everybody take says two sentence that way if, uh, if somebody has doubts they can ask or we can go through that and they can listen to other people chanting and yes uh, yes so, yeah, yeah, correct, sir. so uh, uh, your turn will come at the end okay because we just went through the list uh, and oh, okay your turn comes okay, okay. next uh, next one is uh, ganga शिवे न वच सा त्वा गिरिशाक्षा सुमना असत् अध्यावो वक्ता अहिगिश्च सर्वान् जम्भयन् सर्वा आश्च यातु धान्यः असौ यस् ये क्षेमागुम् रुद्रा अभितो तीक्षु श्रिता सहस्र शो वैशागुम् हेड इमहे असौ यो वसर्पति नीलग्रीवो विलोहितः न्न उत अदृशन्न सन्धिकार्यः ्योलिङ्ग् नकार बट् दो नोड् उदैनं गोपा अदृशन् न दृशन्नुदहार्यः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मेढुषे अथो ये अस्य सत्त्वानोऽहम् तेभ्यो करन् नमः धन्वनस्त्वमुभयोरार्नियोर्ज्ञां याश्च ते हस्त इषभः पराता भगवो वपा अवतत्य धनुस्त्वगुं सहस्राक्षहस्राक्ष शाते शतेषु सोरि स्थातगेम् वा अवतत्य धनुस्त्वगुं सहस्र सहस्राक्ष शाते शतेषु अवतत्य धनुस्त्वगुं सहस्राक्षशतेषु धे अवतत्य धनुस्वगुम् सहस्राक्षशसे शुभे निशीर्यशल्यानामुखा शिवो नः सुमना भव धनुः okay. कपर्दिनो विशल्यो बाणवागुम् उत अनेशनस्येशव नस्येशव आभुरस्य निषङ्गतिः े तिर्मीडुष्टमहस्ते बहुवत्ते धनुः यता, यता तया स्मानम् नमस्ते अस्तायुधाय अनातताय धृष्णवे उपाभ्यामुदते नमो बाहुभ्यां तव ध्वन्वने परिते धन्वनो भेतिरस्मान् ऋणक्तु विश्वतः अथो य इषुधिस्तवारे अस्मन्निधेहितम् शम्भवे नमः नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय त्रिकालानिकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यबाहवे सेनान्ये दिशाञ्च पतये नमो नमो दिशां दिशां च पतये नमो नमो दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः इवीबडी okay so let's do the next part and after that we'll come back and do the whole thing again okay sasinjarayatvishimate pathinam pataye namo namo sasinjarayatvishimate pathinam pataye namo namo sasinjarayatvishimate pathinam pataye namo namo बब्लुषाय विव्यादिने ध्यानां पतये नमो नमो बब्लु बब्लुषाय विव्यादिनेनानां पदये नमो नमो योपवीतिने पुष्टा पतये नमो नमो हरिने हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो नमो हिरण्यभाहवे सेनान्ये दिशाञ्चपतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमो नमः सिञ्जराय त्रिषीमते पतीनाम् पतये नमो नमो भद्रुशाय विव्यादिने ना पये नमो नमो हरिकेशाय हरेशायोपवीदिने पुष्टानाम् पतये नमो नमः नमो हिरण्यबाहवे सेनान्ये दिशाम् पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमो नम सस्मिञ्जराय त्विषीमते पथीनाम् पतये नमो नमो बभ्रुषाय ्यादिनेन्नाम् पतये नमो नमो पुष्टानाम पतये नमो हरिकेशायोपे हिरण्यबाहवेशे नान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्य य सालो नमो नमस्पियः अन् साकं बेकंस् डबल् सकार नमस्पिञ्जरायकेफोर् दकारम् becomes becomes becomes F sound and in front uh -huh. of the S Sakara Sakara Sakara it it a a double sakara. Pashu nam okay. double Namas okay. okay. so there Sandhi rules, okay. so um, if, if you you um, uh, uh, but when you say हरिकेशे हरिकेशेस्कारि फ़् इन् दुन्लैट् ओके okay? So, okay. हवेशे नान्येतिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यूनां पतये नमो नमो सस्पिञ्जराय ऋषिपते पथि पतये पथीनां पतये नमो नमो पतीनां पतये नमो नमो बुशायतयेकेश्यायोपवीतिने पुष्पा ऐ केन् गो नेक्स्ट् ओके नमो नमो हिरण्यभाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः सस्पिञ्जराय द्विषीमते पथीनां पतये नमो नमो भब्लुषाय दिव्याधिनेनानाम् पतये नमो नमो हरिकेशायो पवीतिने पुष्टानां पतये नमो नमः नमो हिरण्यबाहवे सेनान्येतिषां च पतये नमो नमो वृ वृक्षेभ्यो हरिकेशेभ्य पशूनां पतये नमो नमः तस्मिंचराय द्विषिमते पतीनां पतये नमो नमो बब्लुषाय पिव्यादिनेन् नानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टाणां पतये नमो नमः you have to just watch out for the this uh, so nakara nakara just to make sure that nakara is just this nak okay it's okay okay our so nakara will be the tongue touching the roof of the mouth is called murdhanya the device want to try cellphone in back I mean, yeah. okay so let's uh, try the uh, uh, next part रुद्राया तथाने क्षेत्राणां पतये नमो नमः रुणामि क्षेत्राणां रुद्राया ताविक्षेत्राणाम् पतये नमो नमः हन्त्याय वनाम् पतये नमो नमो सूताया वनाम् पतये नमो नमो सूताया वनाय सूताया पतये नमो नमो सूताय हन्त्याय पतये नमो नमो सूताय हन्त्याय वनाम् दीर्घहन्त्यहे नमो सूताय हन्त्यहे नमो नमो तत्सवहन्त्यायाशु दीर्घस्वहन्त्य सूताय हन्त्यय वनानां पतये नमो नमो हन्त्याय वनामो नमो नमो रोहिताय स्तपतये वृक्षाणां पतये नमो नमो ृ पतये मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो िणे वाणिजाय कक्षाणां पतये नमो नमो नमः भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नमः भुवन्तये वारिवस्कृतायौषधीनाम् पतये नमो नमःर्घोषाय क्रन्थयते पत्तीनाम् पतये नमो नमः उच्चैर्घोषाया ग्रन्द्रयते पतीनाम् पतये नो नमः शैघोषाय ग्रन्तयते पती कृत्नवीताय धावते सत्पानाम् पतये नमः कृत्नवीता यधावते सद्वानां पतये नमः सत्त्वनां पतये नमः न सत्त्वानाम् कृष्णवीता यनाम् पतये नमः कृत्स्नवीता यथावते नमः कृष्णगीता यथाव होल् थिङ्ग् इस् जस्ट् वन् सेण्टेन्स् एस्ट् ओके से वन्स् नमो हिरण्यबाहवे सेनान्ये दिशाम् च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमो नमः सस्मिञ्जराय त्विषी मते पथीनाम् पतये नमो नमो बब्लुषाय विभ्याधिनेन्नानाम् पतये नमो नमो अरिकेशायोपवीदिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगदाम् पतये नमो नमो रुद्राया तताविने क्षेत्राणाम् पतये नमो नमः सूताया पतये नमो पते पते नमो रोहिताय स्थपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतहे नमो नमो भुवन्तये वारिवस्कृतायौषधीनाम् पतये नमो नम उच्छैर्घोषाया क्रन्दयते पत्तीनाम् पतये नमो नमः यथावर्े नमो हिरण्यबाहवे सेनान्ये दिशाम् च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमो नमः सस्पिञ्चराय त्विषीमते पथीनाम् पतये नमो नमो विव्यादिनेन विव्यादिनेन्नानाम् पतये नमो नमो हरिकेशायोपवे पवीतिने पुष्ठानाम् पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्रा रुद्रायात्तताविने क्षेत्राणाम् पतये नमो नमः सूताया हंथ्याय पतये नमो नमो रोहिताय स्तपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे पतये पतये नमो नमो भुवंत्याई वारी भुवंत्याई वारी वारी नमो क्षाणां पतीनां पतये नमो नमःत्स्नवीताय धावते सत्त्वानां पतये नमः सत्त्वनां पतये नमः लास्ट् सेण्टेन्स् भुवन्त्यै वारिवस्कृतायौषधीनाम् पतये नमो नमर्घोषाया क्रन्दयते पत्तीनाय धावते सत्त्वानाम् पतये नमः need some part. That, that the viserga in front of the uh, kri, Nama Krtna Vidaya. So that Nama will just stay as Nama only, okay? It doesn't become anything else so it becomes a mm -hmm. Patti Naam Pata namo namah E Namo Nama Krtna Vidaya Thavat E Satva Naam Pata E Nama Haa. Okay, that uh, Nama Haa, before the Krtna, it will stay as like it just becomes a H uh, sound. Yeah. Okay. Anybody else want to try? I can try. Okay. Namo Hiranya Bahave Senaanye Dishamsya Pataye Namo Namo Vichhipyo Harikeshipyas Pashunam Pataye Namo Namah Namo Saspingarayatv Shrimateh Pathinam Pataye Namo Namo Bakrushaya व्याधिनेनानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्ये जगदाम् पतये नमो नमो रुद्रायास्तताविने क्षेत्राणां पतये नमो नमो सूतायाहंत्याय वनानां पतये नमो नमो रोहिताय सपदये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवन्तये वारिवकृताय औषधीनां पतये नमो नमोच्चर्यकोषाय कन्दयदे पत्नीनां पतये नमो नमो कृत्स्नवीदाय थावदे सत्त्वानां पतये नमः I don't know why everybody says sattva naam. It's sattva naam. Okay, so it's not sattva naam. Sattva naam pata ye namah. Okay, so it's sattva naam. Krishna Vita Yadhavate sattva naam pata ye namah. Now, so Shishira, a couple of times you say uh, namo namo. It's not always namo. Only namo, the letter following that is uh, Murtu Venjana. Okay, so sometimes it will be namah, it will become namah. Okay? So, that the will disappear so it स्ट् वास् नैक् फ़र् एक्साम्पल् भुवन्तर्षय so फालोड् बै स्वर्गि बिकम् घोषय स्माल् पोयिन् लैक् हवे वृक्षेभ्यो नमो पशूनां पतयेन मो नमस्तराय द्विषीमते पथीनां पतये नो नमो भब्लुषाय विव्याधिनेनानां पतयेन मो नमो हरिकेशायोपवीतिने पुष्टानां पतयेन मो नमो भवस्य हेत्यै जगतां पतयेन मो नमो रुद्रायातताविने क्षेत्राणां नाम। पतयेन मो नमःताय हन्त्याय वनानां पतयेन मो नमो पुरोहितायस्तपतये वृक्षाणाम् पतये नो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतयेन मो नमो भुवन्तये वारिवस्कृतायौषधीनाम् पतयेन मो नमः उच्चैर्घोषाया क्रन्दयते पत्तीनाम् पतयेन मो नमः कृत्स्नवीताय धावते पतये नमः हिरण्यबाहवे सेनान्ये दिशांश पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमो नमस् सस्तिञ्जराय द्विषीमते पतीनाम् पतये नमो नमो बब्लुषाय विव्यादिनेन्नानाम् पतये नमो नमो हरिकेशायोपवीतिने पुष्ठानाम् पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्राय तथा विने क्षेत्राणाम् पतये नमो नमस्ताय सुताय व्याय सूताया हन्ताय वनाम् पतये नमो नमो रोहिताय स्थपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनाम् पतये नमो नम उच्चैर्गोषाया घ्रन्तयते पतये नमो नमः कृत्स्नवीताय धावते पतये नमः 11 hours So everybody should try that what we can do is you guys can try uh, offline and then next week we'll start from here okay second paragraph namo hiranya bahave so whoever didn't say today maybe they can practice a couple of times and then we can uh, um, do that next week So, um, then we can start with the third paragraph. Um, I'll send the recording after we are done. Uh, so, you'll have a chance to uh, try as well as I have sent the, the Chalekare Brothers thing. So, we can listen to that as well. Um, that's pretty uh, reasonable uh, speed as well as uh, good uh, enunciation. Okay. So, that's our golden reference. Mm-hmm. स्पेशलि स्टाप् इयर्स्ट् त्रि लोकाः समस्ताः स्टाप्यर् ॐ लोकाः भवन्तु भवन्तु ः समस्ताः सुखिनो भवन्ति शान्ति शान्ति शान्तिः ॐ श्रीगुरु नमः